अथ चतुश्चत्वारिंशोऽध्यायः वैशम्पायनुवाच ततो देवाः स गन्धर्वाः समादायार्घ्यमुत्तमम् शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा पाद्यमाचमनीयम् च प्रतिग्राह्य नृपात्मजम् प्रवेशयामासुरथो पुरन्दरनिवेशनम् अशनिश्च महानादामेघबर्हिण लक्षणाः गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन् सस्मार पाण्डवः पुरन्दरनियोगाच्च पञ्चाब्दानवसत्सुखी ततः शक्रो ब्रवीत्वार्थम् कृतास्त्रम् काल आगते नृत्यम् गीतम् च कौन्तेय चित्रसेनादवाप्नुहि वादित्रम् देवविहितम् नृलोके विद्यते तदर्जय स्वकौन्तेय श्रेयो वैते भविष्यति सखायम् प्रददौ चास्य चित्रसेनम् पुरन्दरः स तेन सह सङ्गम्य रे पार्थो निरामयः गीतवादित्र नृत्यानि भूय एवादिदेशः तथापि नालभच्चर्म तपस्वी द्यूतकारितम् दुःशासनवधामर्षि शकुने सौ बलस्य च ततस्तेनातुलाम् प्रीतिमुपागम्य गन्धर्वमतुलं नृत्यम् वादित्रम् चोपलब्धवान् सशिक्षितो नृत्यगुणान् अनेकान् वादित्र्यगीतार्थगुणांश्च सर्वान् न शर्मलेभे परवीरहन्ता भ्रात्रान् स्मरन्मातरम् चैव कुन्तीम् इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि चतुश्चत्वारिंशोऽध्यायः